अथर्वेदे चतुर्थाष्टके द्वितीयोऽध्यायः ओमसे येध्येन्द्रनिन्द्रायेथा तवसे तवसे यान् यो अस्मै सुमतिम्बाजसातौ स्तुतो जने समर्यश्चिकेत स त्वन्न इन्द्रधियसानो अर्कैरहरीणामृषन्यो क्रमश्रेः या इत्थामघवन्ननुजो सम्भक्षो अभिप्रार्यः सक्षिजनान् न ते त इन्द्राभ्या अस्मदृश्वा युक्तासो अब्रह्मता यदसन् तिष्ठारथमधितम् वज्रहस्तारश्मिन्दे वयमसे स्वश्वाः उरो यत्त इन्द्रसन्त्युक्ता गवे चकर्थोर्वरा वृक्षे सूर्यायचितोकसि स्वे वृषा समत्सु दासस्य नाम चित् वयम् ते त इन्द्रये चरः श्रद्धो जज्ञाना जाताश्चरथाः आस्माञ्जगम्यादहि सुष्मसत्पा भगोरहं यः प्रभृते सुचारुः वृक्षेण्यमिन्द्रत्वे हो होजो नृम्णानि च नृतमा न एनीं वसमानो रयिन्दाः प्रार्यस्तु दानम् एवान इन्द्रोऽतिथिरपपाहि कृणतः शूरकारून् उत बाजसातौ वायसातौ पि प्रीहि मद्धः सुषुतस्य चारोः उतत्येमापौरुकुत्स्य वहन्तु मादश्येतासो अस्य कैरीक्षितस्य क्रतुभिर्नृतश्चे उतत्ये मामाहृताश्वस्य शोणाः क्रत्वा मघासो विदधस्य रातौ सहस्राः वेच्यवता नो ददान आनोकमर्यो वपुषेनार्चत उते माध्वन्यस्य दुष्टाः लक्ष्मण्यस्य सुरुचोयतानाः मह्ना रायः संवरणस्य ऋषेरजन्नामः प्रयता अभिग्मन् अजा आतशत्रुमजरा स्वर्वत्यनुस्वधामितादस्मीयते सुनोतनपचत ब्रह्मवाहसे पुरुष्टुताय प्रतरम् दधातम आयः सोमे एन जठरमपि प्रतामन्दतमखवामद्धो अन्धसः यदे मृगाय हन्तवे महावधः सहस्रभृष्टिमुशनाहवधञ्जमत् यो अस्मैघ्रंस उत वायऊधरि सोमम् सुरोद्युमाँह अपा आपशक्रस्तदनुष्टिमोहति ततो शुभ्रम् मघवायः कवासखः यस्यापधेत्पितरञ्जस्य मातरञ्जस्य शक्रो भ्रातरन्नात ईशते वेतीवस्य प्रयतायतम् करो न किल्पिषारीशते वस्व आकरः न पञ्चभिर्दशभिर्वष्ट्यारभन्ना सुन्वता सजते पुष्यथा च न जिनातिवेदमुयाहन्ति माधुनिरादे भजुम् भजति गोमतिम्भे वित्तक्षणः समृतौ चक्रमासजोऽसुन्वतो विशुणः इन्द्रो विश्वस्य तपिता यथा वशं नयति दासवार्याः समेहिम् पणे रजति भोजनम् मुषे पिताशुषे भजति सूदरम्बसु दुर्गे च न ध्रियते विश्वः पुरुजनो यो अस्य तपिषे मचुक्रुधत् संयज्जनौ सुधनौ विश्वशर्धसा भवेदिन्द्रो मघवाकोषु युतम् ह्या अन्यमकृतप्रवेपन्युधीम् गव्यम् सृजते सत्त्वभिर्धुनीः सहस्रसामाग्निवेशिम् गृणीशेषत्रिमग्न उपमाङ्केतुमर्यः तस्मा आपः संयतः पीपयम् तस्मिन् क्षत्रमममवद्वेशमस्तु यस्ते साधिष्ठोपस इन्द्रक्रतुष्टमाभर अस्मभ्यम् दर्शणी सहंसस्निम्बाजेषु दुष्टरम् न्द्रतेजतस्रो यच्छो रसन्ति तिस्रः यद्वा पञ्चक्षिते नाम वस्तत्सु न आभर वो वरेण्यम् वृषन्तमस्य होमहे वृषज्योतिर्हिज्जिष आहोभिरिन्द्रतुर्वणीः वृषाह्यसिराधसे जज्जिषे वृष्णितेशवाः स्वक्षत्रम् ते धृषन्मनः पन्तमिन्द्रमर्त्यमवित्रयन्तमद्रिवः सर्वरथाशतक्रतो नियाहि शवसस्पते क्वाविव्रत्र हन्तमजनाः सो वृत्तपर्हिषः उग्रम् पूर्वेषु पूर्व्यम् हवन् दे वाजसातये अस्माकमिन्द्रदुष्टरम् पुरो यावा अस्माकमिन्द्रेहि नोरथमवापुरञ्या वयम् शविष्ठवार्यम् दिविश्रवोदधीमहिदिभिः स्तोमम् मरामहे स आगमधिन्द्रो यो वसूनाञ्चिके एतद्दातुन्दा मनोरयीणा धन्वचरो न वंसकस्तृषाणश्च कानः पिबतु दुग्धमंशुम् आते हनोहरिवः शुरशिप्रेरुहत्सोमो न पृष्ठे अरुत्वा राजन्दर्वतो न हिन्वङ्गीर्भर्मदेम पुरुहूत विश्वे चक्रन्नवृत्तम् पुरुहूत मेपते मनोः भिया मे अमतेरितद्रिवः रथातधिद्वा जरिता सदा वृथकुविन्नस्तोः शन्नघवन् पुरोवसुः एष ग्रामे प्रसव्येन मघमन्यंसि राजः प्रदक्षिणैद्धरिवोमा विवे नः वृषा आत्मा वृषणम् वर्धतुद्यौ वृषा वृषभ्याम् वृषा वृषरथः सुशिप्रवृषकृतो वृषाः वज्रिम्भरेधाः यो रोहितौ वाजिनो वाजिनी यो ने समस्मैक्षितयो नमन्ताम् श्रुतरथाय मरुतो दु भोजा सम्भानुना यतते सूर्यस्याजुह्वानोघृतपृष्ठस्पञ्चाः तस्मा अमृद्धा उषसोऽव्युच्छान्य इन्द्राय सुनभामेत्याह समिद्धाग्निर्वनवत्स्तीर्णवर्हिर्युक्तग्रावासुतसो मोजराते द्रावाणो यस्ये शिरम् वदन्ते यद्ध्वर्युर्हविषाभसिन्धुम् मधुरियम् पतिमिच्छन्त्ये तियम् बहा ते महिषे मिशिलाम् आस्य श्रवस्याद्रथा च घोषात् पुरोसहस्रा परिवर्तय ते न स राजा यथते यस्मिन्निन्द्रस्तीव्रम् सोमम् विपति आसत्त्वनैरदति हन्ति वृत्रम् क्षेति क्षिते सुभगो नाम पुष्यन् पुष्यात्क्षेमेः अभियोगे भवात्युभे वृतौ संयति सञ्जयाति प्रियः सूर्येः प्रियो अग्ना भवाति य इन्द्राय यदेमिन्द्रश्रवाय्यविशं च तिष्ठदधिषे अप्रथे दीर्घश्रुत्तमम् हिरण्यवर्णदुष्टरम् शुष्मा आ सोयेते अद्रिवो मेहनाः केतसापाः उभा देवा बष्टदे दिवश्चग्मश्च राजथः उतो नो अस्य कस्यचिद्दक्षस्य तव वृत्रहन् अस्मभ्यन्द्रम् नूत आभिरभिष्टिभिस्तवशर्मतक्रतो इन्द्रस्यामसु गोपाः शूरस्यामसु गोपाः यदिन्द्रचित्रमेहना स्त्रित्वादातमद्रिवः राधस्तन्नो विदद्वस उभया हस्त्याभर यन्मन्यसेवण्यमिन्द्रद्युक्षन्तदाभर विद्यामतस्य ते दापने यत्ते ए एदित्सुप्रराध्यम् मनो अस्ति श्रुतम् बृहत् तेन दृढादिद्रिम आवाजम् दर्शि सातये बिष्ठम्बो मघोनाम् राजा आनञ्जर्षणीनाम् पूर्वे प्रशस्तये पूर्वेऽभिर्दुषुषेकिराः अस्मा इत्काव्यम् वच उक्थमिन्द्रायशंस्यम् तस्मा उब्रह्मवाहसे गिरो वर्धन्त्यत्र यो गिरः शुम्भन्त्यत्र यः आयाह्यद्रिभिः सुतम् सोमम् सोमपते पिब वृषन्निन्द्रवृषभिर्वत्रहन्तव वृषा ग्रावा प्रशा वृषा प्रशा मदो सुतः वृषन्निन्द्रवृषभिर्वत्रहन्तव वृषा आत्त्वा वृषणम् हुवे पृषन्वृत्रहन्तः प्रजीषे वज्रे वृषभस्तु राषाक्षुष्मे राजाः वृत्रहासोऽवाः युक्ता हरिभ्यामुपयासदर्वाङ्माद्यन्दिने सवने मत्सरिन्द्राः यत्त्वा सूर्यः सर्भानुस्तमसा विध्यदासुरः अक्षेऽत्र स्वर्भाथयदिन्द्र माया अवो दिवो वर्तमाना अवाहन् गूढम् सोर्यन्तमसा पौरतेन तुलीयेण ब्रह्मणाविन्ददत्रीः मा माभिमन्तवसन्तमत्र हिरस्या द्रुग्धो भियशालिकारीत त्वम् मित्रो असि सत्यराहारास्तौ मेहावतम् वरुणश्च राजा ्राणो ब्रह्माजुरालः स पर्यङ्गीरिणा देवान्नमसोपशिक्षन् अत्रिः सूर्यस्य दिवि चक्षुराधाः स्वर्भावोरपमाया अभुक्षत् यम् वै सूर्यम् स्वर्भानुस्तमसा विद्यदासुरः अत्र यस्तमन्वन्दन् नह्या अन्ये अशक्नुवन् को नु वाहम् मित्रावरुणावृतायम् दिवो वा महःपार्थिवस्य वादे ृतस्य वासदसित्रासीथान्नो यज्ञायते वा पशुषो न वाजान् तेनो मित्रो वरुणो अर्यमाजुरिन्द्ररुभुक्षा मरुतो जुषन्ता नमोऽभिर्वाजे दधते सुवृत्तिम् स्तोमम् रुद्राय मेण्ढुषे सजोषाः आवार्येष्ठाश्विनाभुवध्यैवादस्य पद्मन्द्रथ्यस्य पुष्टौ उत वा लिवो असुराजमन्मप्रान्धांसि भयज्यवे भरध्वम् प्रसक्षनो दिं यः कण्व होतात्रितो दिमः सजोषापातो अग्निः ऊषाभगः प्रभृते विश्वभोजा आदिन्मजग्मुराश्वतमाः प्रवो रजीयुक्ताश्वम् भरध्वम् राज एषे वसेदधितधीः ऋषेभ एवैरौषिजस्य होतालेभ एवामरुतः सुराणाम् प्रवो वायुम् रथयुजम् कृणध्वम् प्रदेवम् विप्रम् पनितारमर्कैः विशुध्यपरतसापः पुरन्तेर्वस्वे अत्र पत्नीराधियेधूः उपभ एषेवन्येभिः शोषैः प्रजह्े दिवश्चितयद्भिरर्कैः कुषासानक्ताः विदुषे पविष्पवाः वहतो मर्त्याय यज्ञम् अभिभोः अर्चे पोष्यावतोन्वास्तोष्पतिम् कुष्टाः रम्रराणः धन्याः सजोषाः धिषणा नमो बिवनस्पतीम् रोषधीराय एषे तुलेन स्थले पर्वताः सन्तु स्वैतवो अरित आप्यो यजतः सदा नो वृद्धाः नश्यम् सन्नर्यो अभीष्टौ कृष्णो अस्तोऽसि भूम्यस्य गर्भम् त्रितो नपातमपां सुरक्ति अग्निरेतरीणशूषैशोचिष्केशो निरीणातिवनाः रथामहे रुद्रियायब्रवामकद्राये चिकितुषेभगाय आपरोषेरुतनो रुतनो द्यौर्वना गिरयो वृक्षकेशाः शृणोतन ऊर्जाम्ब दिर्गिरः स न भस्तरीयाङ्गिशिरः परिज्ञमा शृण्वन्तापः पुरो न शुभ्राः परिसृचो बग्रहाणस्याद्रेः विदाचिन्दुमहान्तो दधानाः वयश्च न सुभ्वा आपयन्ति क्षुभामर्तमनुयतम् वधस्मैः आदैव्या आदिवार्थिवारियन्मापश्चाच्छासुमखाय वोचकम् वर्धन्तान्द्या भोगिरश्चन्द्राग्राः उदा वर्धन्तामभिषाता अन्नाः पदे पदे मेजलिमानिधाः यिवरोत्रे वा शक्राया वायुभिश्च सिषक्तु माता महीरसानस्मत्सूरिभिर्रुजुहस्तरुजुवनीः कथादा आशे मनमसा सुदानो ने भया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ मानोहिर्बुध्यो रिषेधादस्माकम् भोधुपमातिवनीः इति चिह्नप्रजायै पशुमत्यै देवा सोमनते मर्त्यो वा देवासोमनते मर्त्यो वः अत्रा शिवान्तन्वो धासिमस्या जराञ्चिन्मेग्रसीता ताम्बो देवासुमतिमूर्जयन् ते विषमश्यामवसवश्च सागोः सा नसुतानुर्मृणयन्ते देवे प्रतिद्रवन्ते सुपितायगम्याः अभिनविराः यूथस्य मातास्मन्नदेभिरुशी वा गृह्णातु उर्वशी एवा बृहद्दि वा कृणानाभ्यो र्ण्वानाप्रभृतस्यायोः सृषत्व न ऊर्जं यस्य पुष्टेः प्रशन्तमावरुणन्दियैर्मित्रम् भगवति तिन्नो नमस्याः पृषद्यो दिः पञ्च होताशृणो प्रतिमेस्तो मम दिनिर्जगृभ्यात्सोनन्दमाता हृद्यम् ब्रह्म प्रियम् देवहितम् यदस्यहम् मित्रे वरुणे जन्मजोभो उदेय कवितमङ्गवीनामुनत्तयेनमभिमध्वाः कृतेन स नो वसूरिप्रयताहितानि चन्द्राणि देवः स पिता सुवाते समिन्द्रणो मनसादेशिवोभिः देवो भगः स पिता राजोऽंश इन्द्रो वृत्रस्य सञ्जितो धनाम् रुभुक्षावाज उत वा पुरम् धिरवन्तनो अमृता सुष्ठुरासाः मरुत्वतो अप्रतीतस्य जिष्णो रजोर्यतः प्रब्रवामा कृतानि न पूर्वे मघवन्दापरासो न वीर्या उपस्त्व प्रथमम् रत्नते रन्धनाम् स्तुपते शम्भविष्ठः पुरो वसुरागमज्जोहुवानम् तरोतिभिः सृजमाना हरिष्टा बृहस्पते मघवानः सुवीराः ये अश्वदा उत वासन्ति गोदाये वस्त्रदा सुभगास्ते सर्माणम् कृणुहि वित्तमेषाय भुञ्जते अवृणन्तो न उक्तैः अपौरतान् प्रसवे वा वृधानान् ब्रह्म द्विषः सूर्याद्यापयस्य य रक्षसो देववीतापचक्रेभिस्तम् मरुतो नियात यो वश्यमीं शशमानस्य निन्दात्तुच्छ्यान् कामान् कलते शिष्विनः तमुष्टु हि यस्विषु सुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वामहेसौ ओमनसाय रुद्रन्नमोऽभिर्देवमसुरन्धुवस्य दवो ओनसो अपसो ये सुहस्ता वृष्णः पत्नेर्नद्यो विध्वरष्टाः सरस्वते बृहद्दिवोतराकादशस्यन्ते इर्वरिवस्यन्तु शुभ्राः प्रसो महेषु शरणाय मेधाङ्गिरम् भरेणं यसेञ्जायमानाम् य आहनादुहितुर्वक्षणा आसुरूपामिनानो अकृणो दि तन्नाः प्रसुष्टुतिस्तलयन्तम् रुवन्तमिळस्पतिञ्जलितर्नो नमस्याः यो अब्धिमाङ्गदनिमाङ्यर्ति प्रविद्युता रोदसी उक्षमाणः एष स्तोमो मारुतम् शर्धो अच्छाः रुद्रस्य सोनोङ्ुपन्योङ् कामो राजेहवते मा स्वस्त्युपस्तु ऋषदश्वाम् अयासाः प्रैषस्तोमः पृथिवीमन्तरिक्षम् वनस्पती्रोषधि राजे अश्याः देवो देवस्वहवो भूतु मह्यम् मानोः माता पृथिवी दुर्मिमतौ धात् पुरौ देहे वा अनिबाधे स्याम समश्विनो रमसा नूतनेन मजोभुवाः सुप्रणीहीति गमेम आ नो ओरजिम् वहतमोत वीराना विश्वान्यमृतासौभगानि आथेन वः पयसादूर्ण्यर्था अमर्धन्तेरुपनोजन्तु मर्भाः महोराजे बृहते सप्त विप्रो ओमजो भुवो जिताजो ओहवीति आसु स्तुती नमसा वर्तये धैद्या वावाजाय पृथिवी अमृध्रे पिता माता मधुवचा सुरे एफरे नो यशसा अपविष्टाम् अध्वर्यवश्च क्रवाम् सो मधोरिप्रवायवे एफरतचारु शुक्रम् होते एव्यस्य देवमद्धो रिमाते मदाय क्षिपो युञ्जते बाहो अद्रिंसोमस्य या शमिताराः सुहस्ताः अद्धोरसं सुगभस्तिर्गिरिष्ठाञ्जलिश्च तद्दुदुहे शुक्रवंशुः रसाविते जुदुषाणायसोभः क्रत्वे दक्षाय बृहते मदाय हरिरथे सुदुरायोगे अरुवागिन्द्रप्रियाकृणुहि भूयमानः मही ही मरमतिम् सरोषाज्ञाम् देवीन्नमसारातहौयाम् मधोर्मदाय बृहते मृतज्ञामाग्ने वह पथिखर्देभजानैः अञ्जन्तियम् रथयन्तो न विप्रापपपावन्तन्नाग्निनातपन्तः पितुर्न पुत्र उपसि प्रेष्ठा घर्मो अग्निमृतयन्नसादि अच्छा आ महे बृहते शन्तवागीर्दूतोनगम् अश्विनाुबध्यैः मयोभुवाः सरधाया तमर्वाग्म् निधिन्धुरवाणिर्नराभिम् पतव्यसो नम उक्तिन्धुरस्याहम् पोष्ण उत वायोरदीक्षि या राधसाचोदिताराः मतीना या वाजस्य द्रविणोदा उत त्मन् आनामभिर्मरुतोक्षि विश्वाना रूपेऽभिर्जातवेदो हुमानः यज्ञम् गिरो जरितुः सुष्ठुतिम् च विश्वे गन्तमरुतो विश्वभूते आनो दिवो बृहतः पर्वतादा सरस्वतीयजता गन्तु यज्ञम् हवन्देबीजुजुषाणा कृताचीशग्मा नोवाचमुशती शृणोतु आवेध सन्निलपृष्ठम् बृहन्तम् बृहस्पतिम् सदने सादयध्वम् सादद्यो निन्दमादिवाम् सम्भिरण्यवर्णमरुषम् सपेम आधर्णसिर्बृहद्दि बोरराडो विश्वेऽभिर्गन्तो मभिरुहुवानः द्यावसान ओषधीरवृध्रस्त्रिधातु शृङ्गो वृषभोपयोधाः मातुष्पते परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन्न सुषेव्यम् नमसारातहौ या शिशुम् मृजम् चायवो नवासे बृहद्वयो ब्रहत बृहते तुभ्यमग्नेऽधि याजुरो मिथुना सः सचन्त देवो देवः सुहवो भो तु मह्यम् मानो माता पृथिवी दुर्मदौ धात् गुरौ देवानिबाधे स्याम समश्विवसा नूतने भुवा सुप्रणीति आनो रजिम्बह तरोत वीराणा विश्वान्यमृतासौ भगानि तम् प्रत्नथा पूर्वथा विश्वसेव ज्येष्ठरादिम्बरिषदम् स्वर्वितम् प्रतीचीरम् मृजनन्दोहसे गिराशुञ्जयन् अमनुजा सुवर्धसे श्रिये सुदृशीरुपरस्य या स्वर्विरोचमानः ककुभामचोदते सुगोपा असिनलभा आय सुकृतो परो मायाभिरहृत आसनामते रत्यम् हरिः सचते सच्चधातु चारिष्टगातुः सहोतासहो भरीः प्रसरसा आडो अनुबर्हिरविशुर्मध्येजु बाजरो विसृहाहितः प्रभ एरे यामन्निष्टये नीचीरमुष्मै यं यता वृथाः सुयन्तुभिः सर्वशासैरभिषुभिः क्रिभिर्नामानिप्रमणे मुषायति सञ्जर्भुराणस्तरुभिः सुते गृभम् वयाकिनम् चित्तगर्भासु सुस्वरू धारवाके श्रुजगाथशोभसे वर्धस्वपत्नीः रभिजीवो अध्वरे यादृगे पदृशे तादृच्यते महीमस्मभ्यमुषा मुरुज्रयो बृहत्सुपीरमनपच्युतम् सहाह एत्यग्रुर्जनिभान्वा अतिस्पृथः समर्यता मनसा सूर्यः कविः घ्रम् संरक्षन्तम् परिविश्वतो वयमस्माकम् शर्म वनवत्स्वावसुः ज्यायाम् समस्य यतुनस्य केतुनऋषिः स्वरञ्जरति या सुनामते यादृश्मिन्धायितमपस्य या विदद्य उस्वयम् वहते सोऽकरत् समुद्रा सामवतस्थे अग्रिमानरिष्यति, नरिष्यति सव न यस्मिन्नायता अत्रा न हार्दिक्रवणस्य रेजते यत्रामतिर्विद्यते पूतबन्धने स हि क्षत्रस्य मनसस्य चित्तिभिरे वा अवत्सारस्य स्पृणवा मरणभिश्चम् वाजम् विदुषाः श्येन आ आसा मदितिः कक्ष्यो ओपदो विश्ववाहारस्य यजतस्य माजिनाः समन्यमन्यमर्थयन्त्येतभे विदुर्विषाणम् परिपानमन्ति ते सदा वृणो यजतोऽ विद्विषो अपधेद्बाहुवृत्तश्रुतवित्तो ओपस्सजा उपासवराप्रत्ययेतिभातिशय इङ्गणम् भजते सुप्रजामभिः सुतम् भरो यजमानस्य सत्पतिर्विश्वा आसामोधः स धिया मुदञ्चनः भरद्धेनोरसवच्छिश्रियेपयोनुब्रुवारो कामयन्ते यो जागारतमुषामा आनियन्ते यो जागारतम। अग्निर्जाः गतमृजः कामयन्ते अग्निर्जाःगारतमुसामानयन्ते अग्निर्जाःगारतमयम् सोम आहतवाहमस्मि सख्ये न्योगाः जागर्षित्तम् भुवने जातवेदो जागर्ष यत्र हिलते हविष्मान् इदम् हविः श्रद्दधा नोजुहो मितेन पासि विदादिरो विश्यन्नद्रिमुखैरा यत्या उषसो अर्चिनो गो अपावृतौ हृदिनेरुत्सर्गाद्विदुरोमानुषेर्देव आवह त्रिशूर्यो अमतिन्नश्रियम् सारोर्वाद्गवाम् माताजा नदीगात् धन्वर्णसो नद्याःखादो अर्णा स्थूणेः वसुमिता द्रह्म दद्योः अस्मा उक्थाय पर्वतस्य गर्भो महीनाञ्जनुषे पूर्व्याय विपर्वतो जिहीतसाध तद्यौराविवासन्तो दशयन्त भूमा सूक्तेभिर्वोवचोभिर्देवजुष्टैरिन्द्रान्वा अग्ने अवसे हुमध्यै उक्थेभिर्हिष्मा कवयः सु यज्ञाविवासन्तो मरुतो यजन्ते एतोऽन्वा अद्य शुद्ध्यो भवप्रदुच्छनामिन वा बाबरे यः आरेद्वेषांसि सनुतर्दधा मायामप्राञ्चो यजमानवच्छा एताधियम् कृणवामासखायोपया माताङ्कृणुत व्रजङ्गोः यजामनुर्विशिषिप्रञ्जिका निजया वणि वङ्कुरा पापुरेशम् अनो नोदत्र हस्तयतो अद्रिरार्चन्येन दशमासो न भग्वाः ऋतम् यति सरमागाहविन्दद्विश्वाः निसत्याङ्गिराश्चकार विश्वे अस्याव्युषिमाहिनायाः सञ्द्गोभिरङ्गिरसो न वन्द उत्स आसाम् पथा सरमाः विदाः आसूर्यो यातु सत्ताश्वः क्षेत्रम् प्रभुष्येन पदयदन्थो अच्छाजुवा कविर्देीरयद्गोसु गच्छन् आसूर्यो अर्हच्छुक्रमर्णो युक्तयद्धरितो भीतपृष्ठाः उद्दाननावमनयन्त धीराः आशृण्वती रापोऽ अर्वागतिष्ठन् धियम्बो अप्सुदधिषे स्पर्शान्यया तरन्दश मासो न भगवाः अयाधियास्याम देव गोपा अयाधिया तुर्यामात्यह्माह हयो न विद्वाम् अयुजिस्वयम् धुरिराम् वहामि प्रतरणेमवश्युमम् नास्यावश्मि विमुचन्नावृतम् पुनर्विद्वान्पथः पुर एतरुजुनेषति अग्न उभाना सत्या रुद्रो अधग्नाः पूषा भगः सरस्वते जुषन्त इन्द्राग्ने मित्रावरुणादितिम् स्वः पृथिवीन्द्याम् मरुतः पर्वताम् अपः हुबे विष्णुम् पूषणम् ब्रह्मणस्पतिम् भगन्नुशंसम् सुवितारमूतये उतरो विष्णुरुतवातो अश्रिसो द्रविणोदा उत उतर्भव उतरायेनो अश्विनो तष्टोत उतत्यन्नो मारुतम् श्रद्धागमद्यविक्षजय दतम् बर्हि रासदे बृहस्पतिः शर्मपुरुषोतनोऽयवद्वरोध्या वरुणो मित्रो अर्ण्यः उतत्ये पर्वता सस्वशस्तयः सुधीतयो नद्या अस्त्रामणे भुवन् भगोविभक्ता शावसागमतुरुव्यच अदितिश्रोतुमेहवम् देवानाम् पत्नीरुषीरवन्तु नः प्रावन्तु नस्तु जये वाजसादये याः पार्थिवासो या अपामपि मूरते ता नो देवी सुह वाः शर्म यच्छत उतग्नाव्यन्तु देवपत्नीरिन्द्राण्या अग्नायश्विनीराज आरोदसेवरुणानि इति चतुर्थाष्टके द्वितीयोऽध्यायः